ततः पितामहः साक्षादभिगम्यमहासुरौ वरेण छन्दयामास सर्पलोकहितः प्रभुः ततः भ्रातरौ दृढविक्रमौ दृष्ट्वा पितामहं देवं तस्थतुप्राञ्जली तदा ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा आवयोस्तपसानेन यदि प्रीतः पितामहः मायाविदा वस्त्रविदौ बलिनौ कामरूपिणौ उभावप्यमरौ प्रसन्नो यदि नौ प्रभुः ब्रह्मोवाच ऋतेमरत्वम् युवयोः सर्वमुक्तम् भविष्यति अन्यद्वृणीतम् मृत्योश्च विधा नमवरैः समम् प्रभविष्याव इति यन्महदभ्युद्यतम् तपः विधीयते त्रैलोक्यविजयार्थाय भवद्यामास्थितम् तपः हेतुनानेन दैत्येन्द्रौ न वा कामम् करोम्यहम् सुन्दोपसुन्दावोचतुः त्रिषु लोकेषु यद्भूतम् किञ्चित् स्थावरजङ्गमम् सर्वस्मान्नो भयम् न स्याद् द्रुतेऽन्योन्यम् पितामह उवाच यत् प्रार्थितम् यथोक्तम् च काममेतद्ददानि वाम् मृत्योर्विधानमेतच्च यथावद्वा भविष्यति नारद उवाच ततः पितामहो दत्त्वा वरमेतत्तदा तयोः निवर्त्य तपसस्तौ च ब्रह्मलोकम् जगामः लब्ध्वा वराणि दैत्येन्द्रावथतौ भ्रातरा उभौ अवध्यौ सर्वलोकस्य स्वमेव भवनम् गतौ तौ तु लब्धवरौ कृतकामौ मनस्विनौ सर्वः सहृज्जनस्ताभ्याम् ततस्तौ तु मौलिनौ सम्बभूवतुः महार्हाभरणौ पेतौ विरजोम्बरधारिणौ अकालकौमुदीम् चैव चक्रतुः सार्वकालिकीम् नित्यप्रमुदितः सर्वस्तयोश्चैव सहृजनः भक्ष्यताम् भुज्यताम् नित्यम् दीयताम् रम्यतामिति गीयताम् चेति शब्दश्चासी गृहे गृहे तत्र तत्र महानादैरुत्कृष्टतलनादितैः दृष्टम् प्रमुदितम् सर्वम् दैत्यानामभवत्पुरम् तैस्तैर्विहारैः बहुभिर्दैत्यानाम् कामरूपिणाम् सम सक्रीडता अहरेक महाभारते आदिपर्णि विदुरागमनराज्यलंभपर्वि सुंदोपसुंदोपाख्या अष्टतमोध्याय